्याशीतितमोऽध्यायः वैशम्पायिनो वाच श्रुत्वा कुमारम् जातम् तु देवयानी शुचिस्मिता चिन्तया मास दुःखार्ता शर्मिष्ठाम् प्रतिभारत अभिगम्यच शर्मिष्ठाम् देवयान्यब्रवीदिदम् देवयान्युवाच किमिदम् वृजिनम् सुभ्रुक् कृतम् वै कामलुद्धया शर्मिष्ठो वाच ऋषिरभ्यागतः कश्चित् धर्मात्मा वेदपारगः समयावरतः कामम् याचितो धर्मसंहितम् नाहमन्यायतः काममाचरामि शुचिस्मिते तस्मादृशेर्ममापत्यमिति सत्यम् ब्रवीमिते देवयान्युवाच शोभनम् भीरु यद्येवमथ स ज्ञायते द्विजः गोत्रनामाभिजनतो वेत्तुमिच्छामि द्विजम् शर्मिष्ठौ उवाच तपसा तेजसा चैव दीप्यमानम् मम सम्प्रष्टुम् शक्तिर्मासेच्छुचिस्मिते देवयान्युवाच यद्येतदेवम् शर्मिष्ठे न मम अपत्यम् यदि ते लब्धम् ज्येष्ठात् वैशम्पायनोवाच अन्योन्यमेव मुक्त्वा तु सम्प्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी ययातिर्देवयान्याम् तु पुत्रावजनयन् नृपः यदुम् चतुर्वसुञ्चैव चक्रविष्णु इवापरौ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणि द्रुह्युञ्चानु च पूरुञ्च त्रीन् कुमारानजीजनत् ततः काले तु कस्मिंश्चित् देवयानीषु च ययाति सहिता राजम् वनम् ददर्श च तदा तत्र कुमारान् देवरूपिणः क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत् देवयान्युवाच कस्यैते दारका राजन् देव पुत्रोपमाः शुभाः मतास्तव वैशम्पाय न एवम् पृष्ट्वा कुमारान् पर्यपृच्छत देवयानिुवाच किम्नामधेयं नामधेयम् वंशो वः पुत्रकाः कश्चवः पिता प्रब्रूतमे यथा तथ्यम् श्रोतुमिच्छामि तम् कुमारास्ते देवयान्याः सुमध्यया ते प्रदेशिन्या तमेव नृपसत्तमम् शर्मिष्ठाम् मातरम् चैव तथा च ख्युश्च दारकाः वैशम्पायन उवाच इत्युक्त्वा सहितास्ते राजा देवयान्यास्तदान्तिके रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः श्रुत्वा तु तेषाम् बालानाम् सव्रीड इव पार्थिवः दृष्ट्वा तु तेषाम् बालानाम् प्रणयम् पार्थिवम् प्रति बुद्ध्वा च तत्त्वम् सा देवि शर्मिष्ठामिदमब्रवीत् देवयान् युवाच अभ्यागच्छति माम् कश्चिदृषिरित्येमवब्रवीः ययातिमेव नूनम् त्वम् प्रोत्साहयसि भामिनि पूर्वमेव मया प्रोक्तम् त्वया तु वृजिनम् कृतम् मदधीनासति कस्मादकार्षीर्विप्रियम् मम तमेवासुरधर्मम् त्वमास्थिता न बिभेषिमे शर्मिष्ठोवाच यदुक्तम् ऋषिरित्येव तत् सत्यम् चारुहासिनि न्यायतो धर्मतश्चैव चरन्तीन बिभेमिते यदा वृतो भर्ता वृत एव तदा सखी भर्ताहि हि भर्ता भवति शोभने पूज्यासि मम मान्या च ज्येष्ठा मे पूज्यतमो राजष्य किम् त्वत्पित्रा गुरुणा मे च तव भर्ता च पूज्यश्च पोष्याम् पोषयतीह माम् श्रुत्वा तस्यास्ततो वाक्यम् देवयान्य प्रवीदिदम् राजन्नाद्येह वत्स्यामि विप्रियम् मे कृतम् त्वया सहसोत्पथिताम् श्यामाम् दृष्ट्वा ताम् साश्रुलोचनाम् तूर्णम् सकाशम् काव्यस्य प्रस्थिताम् व्यथितस्तदा अनुभव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन् नृपः न्यवर्तत न चैव स्म क्रोध संरक्तलोचना अविब्रुवन्ति किञ्चित् सा राजानम् साश्रुलोचना अचिरादेव सम्प्राप्ता सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतस्थिता अनन्तरम् ययातिस्तु पूजया मास भार्गवम् देवयान्युवाच अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः त्रयोऽस्याम् जनिताः पुत्रा राज्ञानेन ययातिना दुर्भगायाममत्वौ तु पुत्रौ तातब्रवीमिते धर्मज्ञ इति विख्यात एष राजा भृगूद्वः अतिक्रान्तश्च मर्यादाम् काव्यै शुक्रौवाच धर्मज्ञः महाराज यो धर्ममकृथाः प्रियम् तस्माज्जरात् त्वामचिरात् धर्शयिष्यति दुर्जया ययातिरुवाच ऋतुम् वै याचमानाय भगवन् दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतम् मया ऋतुम् वै याचमानाय न ददाति ब्रह्मन् सह ब्रह्मवादिभिः अभिकामाम् स्त्रियम् यश्च गम्याम् रहसि नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः यद्यत् याचति माम् कश्चित् तत्तद्देयमिति व्रतम् त्वया च सापि नाथमिहेच्छति म त्वैतन्मे धर्म इति कृतम् ब्रह्मन् क्षमस्व इत्येतानि समीक्ष्याहम् कारणानि भृगोद्वः अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् शुक्रौवाच नन्वहम् प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव मिथ्याचारस्य धर्मेषु चौर्यम् भवति वैशम्पायनो उवाच क्रुद्धे नो शनसा शप्तो ययातिर्नाहुषस्तदा पूर्वम् वयः परित्यज्य जराम् सद्योन्वपद्यत ययातिरुवाच अतृप्तो यौवनस्याहम् देवयान्याम् भृगूद्वः प्रसादम् कुरु ब्रह्मञ्चरेयम् न विषेच्य माम् शुक्रौवाच नाहम् मृषाब्रवीम् एतज्जराम् प्राप्तोऽसि भूमिप जराम् त्वमन्यस्मिन् सङ्क्रामय यदीच्छसि राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा यो मे दद्यात्मयः शुक्रोवाच सङ्क्रामयिष्यसि जराम् यथेष्टम् मामनुध्याय भावेन न च